यदीक्षितायुर्यदि वा परेतो यदि मृत्यो रन्तिगन् नीत एवा तमाहरामिनिरृते रूपस्थादस्पार्षमेनं शतशारदाया यदि क्षितायुर्यदि वा परेतो यदि मृत्यो रन्ति गन्द एवामाहरामि निरृते रूपस्थादस्पार्षमेनं शतशारदाया यदि क्षितायुर्यदि वा परेतो यदि मृत्यो रन्ति गीद एवामाहरामि निरृते रूपस्थादस्पार्षमेनं शतशारदाया